बृहदारण्य उपनिषत् अध्यायं तु ब्राह्मणं फोर् ओ मैत्रे हो मैत्रेयीदिहोवाच याज्ञवल्क्य उद्यास्यन् वा अरेकमस्मात् स्थानादस्मिकन्दतेनया कात्यायन्यान्तङ्करवाणीति साहोवाच मैत्रेयीयन्नुम इयं भगवत्सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृतास्यामिति नेदि कोवाच याज्ञवल्क्यो यथैवोपकरणवदाञ्जीवितं या तथैव ते जीवितग् स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति साहोवाजमैत्रेयी येनाहन्नामृतास्यां किमहं तेन कुर्या यदेव भगवान्वेद तदेव सहो वाजयाज्ञवल्क्यप्रियाबदारेण सति प्रियं भाषस ये ह्यास्व्याख्यास्यामि देव्या चक्षाणस्य तु निदिध्यासस्वेति सहो अरे पथ्युःकामाय भवत्यात्मनस्तु कामाय पदिः अरे जायायै कामाय जाया, जाया भवत्यात्मनस्तु कामाय जाया प्रिया भवति न अरे पुत्राणां कामाय पुत्राप्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति न अरे वित्तस्य कामाय वित्तं प्रियं भवन्त्यात्मनस्तु कामाय वित् तं भवदिनवा अरे ब्रह्मणः कामाय ब्रह्मप्रियं भवत्यात्मनस्तु कामाय ब्रह्मप्रियं भवदिन वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति न अरे लोकानां कामाय लोकाप्रिया भवन् आत्मनस्तु कामाय लोकाप्रिया भवन्ति न वा अरे देवानां कामाय देवाः प्रिया भवन्ति कामाय देवाः प्रिया भवन्ति नवा अरे भूदानां कामाय भूदानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूदानि प्रियाणि भवन्ति न अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्य श्रोतव्यो मन्दव्यो निधिध्यासितव्यो मैत्रेह्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदगुं सर्वं विदितम् ब्रह्मदं परादाद्योऽन्यत्रात्मनो ब्रह्मवेदक्षत्रन्तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुल्योऽन्यत्रात्मनो लोकान्वेददेवास्तं परादुल्योऽन्यत्रात्मनो देवान्वेद भूदानिदं परा दुल्योऽन्यत्रात्मनो भूतानि वेद सर्वन्तं परा दाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानि दघुं सर्वं यदयमात्मा स यथा दुन्दुभेर्हण्यमानस्य न बाह्याञ्चब्दाञ्चक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याखादस्य वा शब्दो गृहीतः स यथा शङ्खस्यध्मायमानस्य न बाह्याञ्चब्दान् चक्नुयाद्ग्रहणाय शङ्घस्य दुग्रहणेन सङ्घद्मस्य वा शब्दो गृहीतः स यथा वीणायै वाद्यमानायै न बाह्याञ्चब्दान् चक्नुयाद्ग्रहणाय वीणायै दुर्ग्रहणेन वीणावादस्य वा शब्दो गृहीतः स यथार्द्रैधाग्नेरभ्याचिदात् पृथग्धूमा विनिश्चरन्त्येवं वा अरेस्य महदो भूतस्य निःश्वसित मे दद्यदृग्वेदो यजुर्वेद साम वेदो धर्वांगिरस इतिहासः पुराणं विद्या उपनिषत् श्लोकास्त्राण्यनुव्याख्यानानि व्याख्यानान्यस्यै वैदानि निःश्वसिनि स यथा सर्वासामपागं समुद्रयेकायनमेव गं सर्वेषास्पर्शानां त्वगे मेवगं सर्वेषागं रूपाणाञ्चक्षुरेकायन मेवगं सर्वेषागुं शब्दानाग् श्रोत्रमेकायन मे वं सर्वेषागं सङ्कल्पानां मन एकायनमेव सर्वासां विद्यानागुं हृदयमेकायन मेवगं सर्वेषां कर्मणागुं हस्तावेकायन मेवगं सर्वेषामानन्दानामुपस्त एकायन मेवगुं सर्वेषां विसर्गाणां वायुरेकायनमेव सर्वेषा मध्वनां पादावेकायन मे वघुं सर्वेषां वेदानां वागेकायनम् स यथा सैन्धवकिल्य उदगे प्रास्त उदगमे वानुविलीयेतन हास्योद्ग्रहणाय वस्याद्यदो यतस्त्वादधीदलवणमे वैवं वा अर इदं महद्भुतमनन्तमपारं ये वैदेभ्यो भूदेभ्यः समुद्धाय तान्ये वानु विनश्यदिनप्रेत्य संज्ञास्तीत्यरेब्रवीमिति वाच याज्ञवल्क्यः सा होवाच मैत्रेय्यत्रैव मा भगवान् मुमुहन्नप्रीत्य संज्ञास्ति दिशहोवाच न अरे वा अरेहं मोहं वा अर इदं विज्ञानाय यत्र हिद्वैदमिव भवति तदितर इतरं जिघ्रदि तदितर इतरं पश्यति तदितर इतरगुं शृणोति तदितर इतरमभिभवदति तदितर इतरं मनुदे तदितर इतरं विजानाति यत्र वा अस्य सर्वमात्मैव कञ्जिघ्रेत् तत्केन कं पश्येत् तत्केन खगुं शृणुयात् तत्केन कमभि वदेत् तत्केन कं मन्वीद तत्केन कं विजानीयात् येनेदघुं सर्वं विजानादि तङ्केन विजानीयाद्विज्ञातार फरेकेन विजानीयादिति ॐ इति द्वियाध्याये चतुर्थं ब्राह्मणम् ॐ बृहदारण्य उपनिषत् अध्यायं टु ब्राह्मणं फैव् ॐ इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधुयश्चायमस्यां पृथिव्यां तेजो मयो मृदमयः पुरुषो यश्चाय मध्यात्मगुं शारीरस्तेजो मयो मृदमयः पुरुषोयमे वस योऽयमात्मेदममृदमिदं ब्रह्मेदगुं सर्वम् इमापः सर्वेषां भूतानां मध्वा सामपागं सर्वाणि भूतानि मदु यश्चाय मा स्वप्सुतेजोमयो मृतमयः पुरुषो पश्चायमध्यात्मगुं रैदसस्तेजो मयो मृदमय पुरुषोयमे वसयोय मात्मेदममृदमिदं मा ब्रह्मेदगुं सर्वम् अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नौ तेजोमयो मृदमयः पुरुषो यश्चाय मध्यात्मं वाङ्मयस्तेजोमयो मृतमयः पुरुषोयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदगुं सर्वम् अयं वायुः सर्वेषां भूतानां मध्वस्य वायो सर्वाणि भूतानि मधुयश्चायमस्मिन्वायौ तेजोमयो मृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयो मृतमयः पुरुषोयमेव सयोयमात्मेदममृदमिदं ब्रह्मेदगुं अयमादित्यः सर्वेषां भूतानां मध्वास्यादित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्येतेजोमयो मृदमयः पुरुषो यश्चाय मध्यात्मञ्चाक्षुषस्तेजोमयो मयो पुरुषो यमे वसयो यमात्मेदममृदमिदं ब्रह्मेदगुं सर्वं इमा दिश सर्वेषां भुधानां मध्वासान् दिशा सर्वाणि भुतानि मधु यश्चायमासुदिक्षुतेजो मयो मृदमयः पुरुषो यश्चायमध्यात्मघ्श्रोत्रप्रादिश्रुतस्तेजो मयो मृदमयः पुरुषोयमे वस योयमात्मेदममृदमिदं ब्रह्मे दघुं सर्वम् अयञ्चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधुयश्चाय मस्मिश्चन्द्रे तेजोमयो मृदमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयो मृदमयः पुरुषोयमेव स योयमात्मेदममृतमिदं ब्रह्मेदगुं सर्वम् इयं विद्युत्सर्वेषां भूदानं मध्वस्यै विद्युदः सर्वाणि भूतानि मधु यश्चायमस्यां विद्युदिते जोमयो मृदमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयो मृदमयः पुरुषोयमेव स योयमात्मेदममृतमिदं ब्रह्मेदगुं हयग्स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नो सर्वाणि भूतानि मधुयश्चायमस्मिंस्तनयित्नौ त्येजोमयो मृदमयः पुरुषो यश्चाय मध्यात्मगुं शाब्धः सौवरस्तेजोमयो मृदमयः पुरुषोयमे वसयोऽयमात्मेदममृतमिदं ब्रह्मेदगुं सर्वम् अयमाकाशः सर्वेषां भूतानां मध्वस्याकाशस्य सर्वाणि भूतानि मधुयश्चायमस्मिन्नाकाशे त्यजोमयो मृदमयः पुरुषो यश्चाय मध्यात्मघुं हृद्याकाशस्तेजोमयो मृदमयः पुरुषोयमेव सयोऽयमात्मेद मम मम मम मम मम ममृदमिदं ब्रह्मेदगुं सर्वम् अयन् धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन् धर्मे तेजोमयो मृतमयः पुरुषो यश्चायमध्यात्मन् धार्मस्तेजोमयो मृदमयः पुरुषोयमेव स योऽयमात्मेद मम मम मम मम मम ममृदमिदं सर्वम् इदगुं सत्यगुं सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूदानि मधु यश्चायमस्मिन् सत्ये तेजोमयो मृदमयः पुरुषो सात्यस्तेजोमयो मृतमयः पुरुषोयमेव स योयमात्मेदमममृतमिदं ब्रह्मेदगं सर्वम् इदं मानुषगं सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोमृदमयः पुरुषो यश्चाय मध्यात्मं मानुषस्तेजो मयोमृदमयः पुरुषोयमे वशयोऽयमात्मेदममृदमिदं ब्रह्मेदगुं सर्वम् अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधुयश्चायमस्मिन्नात्मनि तेजो मयोमृदमयः पुरुषो यश्चायमात्मा तेजोमयो तेजोमयोमृदमयः पुरुषोऽयमेवसयोऽयमात्मेदममृतमिदं ब्रह्मेदगुं सर्वम् स वा अयमात्मा सर्वेषां भुदानामधिपतिः सर्वेषां भुदानागुं राजा तद्यथा रथनाभौ च रथनेमौचारा सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवा सर्वे लोका सर्वे प्राणा सर्वयेद आत्मानः समर्पिताः इदं वै तन्मधुदध्यङ्गाधर्वणोश्विभ्यामुवाच तदेददृशिः पश्यन्नवोचद तद्वा नरासनये दघुंस उग्रमाविष्कृणोमि तन्यतुर्नवृष्टिं दध्यङ्घ यन्मध्वाद्धर्वणो वामश्वस्य शीर्ष्ना शीर्ष्णाप्रयदिमुवाचेति इदं वै तन्मधु दध्यङ्गाधर्वणोऽश्विभ्यामुवाच तदेददृशि पश्यन्नवोचद आधर्वणायाश्विनौ दधि चेष्घुं शिरः प्रत्यैरयदं स वां मधुप्रवोज हृदा यन्द्वाष्ट्रै्यदस्रवपि कक्ष्यं वामिति इदं वैतन्मधुदध्यङ्गाद्धर्वणोऽश्विभ्यामुवाच तदेदृशिः पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः पुरः सपक्षी भूत्वा पुरःपुरुष आविशदिति स वा अयं पुरुषसर्वासु पुरुषु पुरिषयो नैनेन किञ्चनानावृदं चैनेन किञ्चना संवृतम् इदं वै तन्मधुदध्यङ्गाधर्वणोऽश्विभ्यामुवाच तदेदृषिः पश्यन् नवोचत् रूपगं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय इन्द्रो मायाभिः पुरुरूप ईयदे युक्ताह्यस्य हरयः सदा सदेत्ययं वै हरयोयं वै दश च सहस्राणि बहूनि चानन्तानि च किदि द्वितीयोऽध्याये पञ्चमं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं टु ब्राह्मणं सिक्स् ओ अधवगुंसः पौदिमाश्यो गौपवनात् गौपवनः पौदिमास्यात् पौधिमाह्यो गौपवनाद्गौपवनक् कौशिकात् कौशिकौण्डिन्यात् कौण्डिन्यशाण्डिल्या चाण्डिल्यक् कौशिकाच्च गौधमा च गौतमः आग्निवेश्यादाग्निवेश्यशाण्डिल्याच्चभिम्लादाच्चभिम्लाद आनभिम्लादा दानभिम्लाद आनभिम्लादा दानभिम्लादो गौदमाद्गौदमसैतवप्राचीन योग्याभ्यागुं सैदवप्राचीन योग्यौ पाराचर्यात् पाराचर्यो भारद्वाजाद् भारद्वाजो गौदमो। भारद्वाजा च गौधमा च गौधमो भारद्वाजाद्भारद्वाजः पाराचर्यात् पाराचर्यो वैजवापायनाद्वैजवापायनकौशिकायने का कौशिकायनिः घृदौशेका घृदौशेकणा पाराशरियाय पाराशाच जादूकर्ण्यादूकर्ण्य जादू आसुरायणाच चा यास्काच्च्चासुरायस्त्रणेस्त्रणी रूप जन सौप्यजनिरासुरी रासुरी भारद्वाजा भारद्वाज आेयादय मांडेड गगौतम गौधमो गौधमा गौधमो वह सौिल्याल्यशोल्या कैशोल्यकाप्यकुमार हारितात् कुमार हरितो गालवाद्गालवो विदर्भी कौण्डिन्याद्विदर्भी कौण्डिन्यो वत्सनपादो बाभ्रवाद्वत्सनपाद् बाभ्रवः पदस्सौभरात् पन्धात्सौभरो यास्या दाङ्गिरसान्दयस्य आङ्गिरस आभूदेस्त्वाष्ट्रादा भूदिस्त्वाष्ट्रो विश्वरूपस्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधी च आधर्वणा दध्यङ्गाद्धर्वणो धर्वणो दैवा दधर्वा दैवो मृत्यो प्राध्वगुं सनान् मृत्युः विप्रचित्तेर् सनः प्राध्वगुं सनात्प्रध्वगुं सन एकर्षेरेकर्षेर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनाः सनातनात् सनातनत्सनगात् सनगः नगः परमेष्टि न परमेष्टि ब्रह्मणो ब्रह्मस्वयं भुक् ब्रह्मणे नमः इति द्वितीयोऽध्याये षष्ठं ब्राह्मणम् इति द्वितीयोऽध्यायः ओ